प्रजावे वै सहस्रमासदत हस्तप्यमाना जुह्वतीः देवा पश्यन् जमसङ्घतस्य पूर्णग्रस्वथाम् तमपोदतिष्ठन्तमजुहगुः केनार्धमासपोर्जमवारुन्धता तस्मादर्धमासे देवा युज्यन्ते वितरपश्यन् जमसङ्घतस्य ोर्जमवारुन्धत मनुष्या अपश्यञ्चतस्य पूर्णग्यस्पथाम् अमुखो दरिष्ठन्तमजोः एनद्वयीमोर्जमवारुन्धद तस्मादिरन्ना मनुष्येभ्यमुपः क्रियते प्रातश्च सायम् च पचमो पश्यन्तमसङ्घटस्य पोर्नग्रस्पधाम् अमुपोदतिष्ठन्तमजुहवोः तेन त्रयेमोर्जमवारुन्धतारञः पदपः प्रेरः सङ्गमे सायम् असुरापश्यन्तरस्य पोर्णग्रस्पधाम् अमुपोदतिष्ठन्तमजुहवोः तेन संवत्सरवोर्जमवारुन्धता तेन मन्यन्ता अमैव इदमभूवन् यद्वयज्ञस्म इति तगेतानि चातुर्मास्यान्यपश्यन् तानि नरभवन् तैरेवैषाम् तामोर्जमवृञ्जत अतो देवाभवन् पराधुराः यद्यजते यामेव देवामोर्जमवारुन्धत कान्तेणावरुन्धे यत् पतुर्भ्यः करोति यामेव वितरवोर्जमवारुन्धत तान् तेनावृन्धे यथावसथे यामेव मनुष्यावोर्जमवारुन्धत तान् तेनावरुन्ध यद्दक्षिणान् यामेव पदमवोर्जमवारुन्धत तान् तेनावरुन्धे यच्चाकुर्मास्यैर्यजते यामेवासु रावोर्जमवारुन्धता तान् तेनावरुन्धे भवत्यात्मना परास्य भ्रातु्या भवति विराजो वा एषा विक्रान्तिः यच्चा दुर्मास्यानि वैश्वरे वेनास्मिन् वे लोके प्रत्यतिष्ठते वरुणप्रकाशैरन्तरिक्षे शाकमेधैरमुष्मिल्लोके एष हत्वा वैतत्सर्वम् भवति य एवम् विद्वागश्चातुर्मास्यैर्यजते अग्निर्वापसंवत्सरः आविदिकर्परिवत्सरः चन्द्रमाविदावत्सरः वायुरणवत्सरः यद्वैश्वदेवेन गजते अग्निमेव तत्संवत्सरमाप्नोति तस्माद्वैष्वदेवेन यद्वर्णप्रभासैर्गिणदे आदित्यमेव तत्परिवत्सरमाप्नोति तस्माद्वर्णप्रघासैर्गिणमानः परिवत्सरेणागस्वस्तिमाशा स्तगित्याशासीत यत्सागमेधैर्गिलदे चन्द्रमसमेव तदि तावत्सरमाप्नोति तस्मात् साकमेधैर्गिणमानः यदावत्सरेणागस्वस्तिमासास्तयित्याशाचेत यक्मितृयज्ञेन गृहते दे। देवानेव तदन्वश्यति अथवा अस्य वायश्चानुवत्सरश्चा प्रेतावच्छिष्येते यक्षुणा शैलीयेन गजते वायिमेव तदनुवत्सरमाप्नोति तस्माक्षुणा संवत्सरम् वा ये जगे सतीत्याहुः यश्चातुर्मास्यैर्गजनयि येष है संवत्सरमाप्नोति यगेवम् विद्वागश्चातुर्मास्यैर्गजते विश्वे देवाः समयजन्त तेऽज्ञमेवा यजन्त तगेतम् लोकमजयन् यस्मिन्नग्निः यद्वयेष्वदेवेन यजते एतमेव लोकम् जयति यस्मिन्नग्निः अग्नेरेव साविध्यमुपैः यदा वैष्टदेवेन यजते अथ संवत्सरस्य गृहपरिमाप्नोति यदा संवत्सरस्य गृहपतिमाप्नोति अथ सहस्रगाचिनमाप्नोति यदा सहस्रगाचिनमाप्नोति अथ गृहमेथिनमाप्नोति यदा गृहमेथिनमाप्नोति अथाग्निर्भवति यदा गद्भवति अथ गौर्भवति एतावै वै एश्वदेवस्य मात्रा एतद्वा एतेषामम् अतो तो वा उत्तरा निःश्रेययागुंसि भवन्ति यद्विश्वेदेवाः समयजन्त तद्वैश्वदेवस्य वैश्वदेवत्वम् अचादित्या वरुणकम् राजानम् यस्मिन्नादित्यः यद्वर्णप्रघासैर्यजते एकमेव लोकम् जयति यस्मिन्नादित्यः आदित्यस्यैव साविध्यमुपैति यदादित्य वरुणगौराजानम् वरुणप्रघासैरयजत तद्वर्णप्रघासागाः वरुणप्रघासत्वम् अथ सो मोराजान्दाकंसिसाकमेधैरयजत सकेदम् लोकमजयते यस्मैज्ञश्चन्द्रमा विभाते यत्साकमेधैर्यजते एतमेव लोकम् जयति यस्मैश्चन्द्रमा विभाते चन्द्रमस केव सायुज्यमुपैति सोमोऽपि चन्द्रमाः एषः त्वे साक्षात् सोमम् भ्रक्षयति यकेवम् विद्वान् साकमेधैर्यजते यत्सोमश्च राजाच्छन्दांसि च समेधन्त तत्साकमेधानागम् साकमेधत्वम् अथत्तवः पितरः प्रजापतिम् पितरम् पितृयज्ञेन यजन्त न एतम् लोकमजयन् यस्मिन्नृतवः यत्पितृयज्ञेन यजते एतमेव लोकम् जयति यस्मिन्नृतवः ऋतूनामेव सायुज्यमुपैति यदृतवः पितरः प्रजापतिम् पितरम् पितृयज्ञेना यजन्त तत्पितृयज्ञस्य पितृयज्ञत्वम् अथोष इमन्ते मन्त्र्यम् भगैर यजन्त प्रथे महीति ततो वीता प्रथन्तम् यद्वाकस्त्र्यम् बगैर् यजते तथते प्रजया पशुभिः अथ वायः परमेश्वरकुंसुनाशीलेनायजत लोकमजयते यस्मिन् वायुः यक्षुनाशीलेयेन यजते एतमेव लोकम् जयति वायोरेव सायुज्यमुपैति ब्रह्मवादिना वदन्ति प्रजातुर्माश्रजायता प्रमीयता इति धीवन्वागे शरतो नप्येति यदि वसन्ताः प्रमीयते वसन्तो भवति यदि ग्रेष्मे ग्रेष्मः यदि वर्षासु वर्षाः यदि शरदि शरद् यदि हेमन् हेमन्तः ऋतुर्भोक्तासंवत्सरमप्येति संवत्सरः प्रजापतिः प्रजापतिर्वावेशः ओ अग्नेकाः शुक्रम् परस्ताज्ज्योतिरवस्तात् प्रजापते लोहिणी आपः परस्तादोषयोऽवस्तात् सोमस्येन्वका विचतानि परस्ताद्वयन्तोऽवस्ताद् स्य बाहो परस्ताद्विवस्ताद् अति ते पुनर्वसो द्वादः परस्तादार्द्रमवस्ताद् बृहस्पते स्तुः द्युग्पदः परस्ताद् जयमानावस्ताद् सर्पानामाश्रयशाः अभ्यागच्छन्दः परस्तादभ्या परस्ताद, वृदन्दः परस्तादभ्रगंशोऽवस्ताद् हर्यर्वेभल्गुणी जाया परस्तादशभोऽवस्तात् भगस्योत्तरे वहदवः परस्ताद्गहमाना अवस्ताद् देवस्य च पितृहस्तः प्रथमः परस्तात् सरिरवस्तात् इन्द्रश्च चित्रात् ऋतम् परस्तात् सत्यमवस्तात् वायोर्निष्ट्या गतिः परस्तादशद्धिरवस्तात् इन्द्राग्नियोर्विशाखे युगादि परस्तात् कृषमाना अवस्तात् मित्रस्यानुराधाः अभ्यारोहपरस्तादभ्यारोहमवस्तात् इन्द्रस्य रोहिणी शृणत्परस्तात् प्रतिशृदवस्तात् नैर्ते मूलवर्हि प्रतिभञ्जलितः परस्तात् परस्ता, परस्ता प्रतिशृणन्तोऽवस्तात् परस्ता, अपाम्बोर्वाषाढाः भर्गः परस्तात् समितिरवस्तात् विश्वेनाङ्गेवानामुत्तराः अभिजगत्परस्तादभिजितमवस्तात् मृष्णाश्रोणा पृक्षमानाः परस्तात्पन्था अवस्तात् असो नागश्रविष्ठाः भूतम् परस्ताद्भूतिरवस्तात् इन्द्रस्य सदभिजगे विश्वविदाः परस्ताद्विश्वक्षुतिरवस्ताद् अजसैकपदः पूर्वे प्रोष्ठपदाः अयिश्वादरम् परस्ताद्वैष्वावधवमवस्ताद् अहेरुोत्तरे अभिषिङ्गन्तः परस्तादभिषण्न्तोरवस्ताद् ओष्णोरेव गावः परस्ताद्वत्सामस्ताद् गाव अश्विनोरश्वयुजौ ग्राम परस्तात् सेनावस्तात् यमस्यापभरणेः अपगरिषन्तः परस्तादपवहन्तोऽवस्तात् ओर्णापश्चाद्यते देवादरु यत्पुण्यम् नक्षत्रम् तद्भक्कुर्वेतोपव्युषम् यदा वेशौर्य उदेति अथ नक्षत्रम् नेति यावति तत्र शौर्यो गच्छेत् यत्र तावदि कुर्वे कार्ये स्यात् पुण्याः एव कुरुते एवकम् अपि यज्ञेषु च शतब्दुम् न च भात्स्योनिरवसायकार यो वीण क्षत्रियम् प्रजापतिम् वेद उभयोरेण लोकयोः पिलोह हस्त एवास्य हस्तः चित्राशिरः निष्ट्याहृदयम् ऊरो विशाखे एवम् वेद उभयोरेणम् लोकयोर्मिदुः अस्मङ्गश्चामुष्मङ्गश्च याम् कामके तृतरम् प्रिया स्यादिति ताम् दृष्ट्या याम् दद्यात् प्रियैव भवति नैव तु पुनरागच्छति ते देवास्तस्मिन्नक्षत्रेऽभ्यजयन् यदभ्यजयन् तदभिजितोऽभिजित्वम् किम् कामगेतानपजेयम् च गेदिति तमेतस्मिन्नक्षत्रेणादियेते अनपजेयमेव जयति पामपराजितमिवतो प्रजापतिः प्रशूरसृजता ते नक्षत्रम् नक्षत्रमुपातिष्ठन्त हे समावन्दगेवाभवन् ते रेवतीपातिष्ठन्त ेवत्याम् प्राभवन् तस्मात् द्रेवत्याम् पशूनाम् कुर्वीता यत्किञ्चा वाजेन कुम् सोमात् प्रैव भवन्ति सलिलम् वा इदमन्तरासेत् यदन्न तत्तारकानाम् तारकत्वम् यो वा युह यजते अमुकम् सलोकम् नक्षते तन्नक्षत्राणाम् नक्षत्रत्वम् देवगृहावै नक्षत्राणि य एवम् वेद गृह्येव भवति यानि वा इमानि पृथिव्याश्चित्राणि तानि नक्षत्राणि तस्मादश्रीरनामग्निश्चित्रे नामस्येन्नैवेद यथा पापाहे कुरुते तादृगेव तदे देवनक्षत्राणि वा अन्यानि यमनक्षत्राण्यन्यानि कृत्तिका प्रथमम् विशाखे उत्तमम् तानि देवनक्षत्राणि अनुराधा प्रथमम् अपभरणीरुत्तमम् तानि यमनक्षत्राणि यानि यमनक्षत्राणि तानि दक्षिणेण वरीयन्ति यानि यमनक्षत्राणि तान्युत्तरेण अन्वेषामला स्मेति तदनु राधाः ज्येष्ठमेषामवधिष्मेति तज्जेष्ठग्ने मूलमेषामवृक्षामेति अन्मूलवर्षणि यन्ना सहन्ता तदशाठाः यदश्रोणद् रच्छ्रोणा यदशृणोत् रच्छ्रविष्ठाः यच्छदमभिरज्यन् तच्छदभिषगे प्रोष्ठपदेषोदयच्छन्त हेमत्यामरवन्त अश्वैजोरीञ्चत अवसरणीष्व वा वहन् तानि वा गेतानि यमनक्षत्राणि यान्येवदेवनक्षत्राणि तेषु पुण्याः एव कुरुते देवस्य सुवितः प्रातः प्रसवः प्राणः तरुणस्य सागवासवो बाणः यत्प्रदेशेन प्रातस्तनात् प्राचेनकुम् सङ्गवात् ततो देवाज्ञष्टो मन्दिरमिवद तत्तदा तवर्यर्मार्गः यत्तस्य सङ्गवः तत्पुण्यन्ते यशवः तस्मात्तरे वृषभः समायन्ति यत्प्रदेशेन कुम् सङ्गवात् रागीणम् मध्यन्दिनात् ततो देवा उच्छन्दिनमिवदा तत्तदात्तवेर्यनिर्मार्गः बृहस्पते मध्यन्तिनः तत्पण्डन्ते जस्वः तस्मात्तरहिते क्निष्ठन्तपदे यत्प्रदेशेनम् मध्यन्दिनात् राशीनमपराह्णात् ततो देवाश्रोडशिरण्रमिवद तत्तदात्तवेर्यनिर्मार्गः भगस्यापराह्णः तत्पुण्यन्ते यस्याः तस्मादपराह्णे कुमार्यो भगमिच्छमानाश्चरन्ति यत्पदे चेणपराह्णात् रात्रेणकम् सागात् दे। ततो देवादिरात्रन्यरमिवता तत्तदात्तवीर्यर्मार्गः वरुणस्य सागम् तत्पुण्यन्ते यस्याः तस्मात्तलीनानदम्बले ब्राह्मणो वाचापुंशो नक्षत्राणाम् समानस्या णःपञ्चपुण्यानि नक्षत्राणि चत्वारिजश्लीलानि तानि न वा यच्च परस्तान्नक्षत्राणायच्चावस्तात् तान्येकादश ब्राह्मणो द्वादशः यगेवम् विद्वान् संवत्सरम् व्रतम् चरति संवत्सरेणैवास्य व्रतम् गुप्तम् भवति समानस्यान्धः पञ्चपुण्यानि नक्षत्राणि चत्वारिजश्लीलानि आग्ने रात्रिः ऐन्द्रवः तान्येकादश आदित्यो द्वादशः यग एवम् विद्वान् संवत्सरम् व्रतम् चलति संवत्सरे नैवास्य व्रतम् गुप्तम् भवति ब्रह्मवादिनो वदन्ति कति पात्राणि यज्ञम् वहन्तीति त्रयोदशे जिब्रूयात् कस्तानि निरमितेति वृजापतिरिब्रूयात् स यत् ब्रूयात् कुतस्तानि निर्मीते आत्मनयदे प्राणापानाभ्यामेवोपाकस्वन्तमो निर्मिलीता जानादुपागम् शुशवनम् पाचलयेन्द्रवायवम् दक्षक्रतुभ्याम् मेत्रावरुणम् श्रोत्रादाश्विनम् चक्षुरः शुक्रावन्सिनोः आत्मनाग्रहिणम् अङ्गेभ्यमुक्षम् आयुषोध्युवम् प्रतिष्ठाया ऋतुपात्रे यज्ञम् वापदम् प्रजापतिर्निरमीता स निर्मितो नाध्ययतसमप्लीयत स एतान् प्रजापतिरपि मापानपश्यत् तान्निरवपत् तैर्वेश यज्ञमप्यपपत् यदपि वापा भवन्ति यज्ञस्य धृत्यासंप्रजाया ऋतमेव परमेष्ठी ऋतम् नापेति किञ्चन ऋतेषु मुद्राहितः ऋतेभूमिर्यज्ञश्रुता अग्निस्तिग्मेण सोतिषाः तपः शरस्तपस्याहितम् वैश्वानरस्य तेजसा हितेनास्य निवर्तये सत्तेन परिवर्तये तपसा स्यानुवर्तये शिवेनास्यापवर्तये शग्मेनास्याभिवर्तये तदृतम् तत्सत्यम् तद्वृतम् तच्छकेयम् तेन शकेयम् तेन ताभ्यासम् यद्धर्मः पर्यवर्तयत् अन्नान् पृथिव्यादिवः अग्निदेशानवोचसा वर्णोऽभिजभिः सह इन्द्रामरभ्यः सभिः सह अग्निस्तिग्ण शोचा तपःक्रान्तमुष्णिहा शिरस्तपस्याहितम् वैश्वानरस्य तेजसा ऋतेनास्य निवर्तये सत्तेन परिवर्तये शिवेन अस्योपवर्तये शग्मेनास्याभिवर्तये अदृथम् तत्सत्यम् तत्पृथम् तच्छकेयम् तेन सकेयम् तेन लाध्यासम् यो अस्याः पृथिव्यास्त्वति निवर्तयत्योषधीः अज्ञदेशा नवोजसा वर्णोऽधेभिः सह इन्द्रो मरुद्भिः सखिभिः सह अग्निस्तिग्मेण शोषिषा अपाक्रान्तमुष्टिहा श्रस्तवस्याहितम् वैश्वाजरस्य तेजसा कृतेणाहस्य निवर्तये सत्येन परिवर्तके तपसास्यानुवर्तये शिवेणास्योपवर्तये षड्मेणास्याभिवर्तके तदृतम् तत्सत्यम् तद्वृतम् दच्छकेयम् तेन शकेयम् तेन राध्यासम् एकम् वा समुदसृजत् परमेष्ठे प्रजाभ्यः तेनाभ्योमः आवहत् अमृतम् मत्याभ्यः प्रजामनः प्रजायसे रते मत्यामृतम् येन मासार्धमासाः प्रथमः परिवत्सलाः येन ते ते प्रजापते ईजानस्य न्यवर्तयन् तेनाहमस्य ब्रह्मणा निवर्तयामि जीवसे अग्निस्तिग्मेन शोषिषा तपाक्रान्तमुष्ण्यहा शिरस्तपस्याहितम् वैश्वानरस्य तेजसा ऋतेनास्य निवर्तये सत्तेन परिवर्तये तपसा स्यानुवर्तये शिवेणास्योपवर्तये शग्मेनास्याभिवर्तये तदृतम् तत्सत्यम् तदृथम् दच्छकेयम् तेन शकेयम् तेन राध्यासम् एवावि यद्गर्गे कुर्वद तदसुराकुर्वद तेऽधुरावूर्ध्वम् पृष्टेऽभ्यो नापश्यन् ते केशानग्रे वपन्त असस्मश्रूणि अथोपपक्षौ तेवाञ्जायन् पराभवन् यस्यैवम् पपन्ति अवागेति अथोपरेव भवति असदेवावूर्ध्वम् पृष्टेऽभ्योऽपश्यन् तौपपक्षावग्रेवपन्त असस्मश्रूणि असकेशान् तस्तेभवन् स्वर्गल्लोकमायन् यस्यैवम् वपन्ति भवत्यात्मनाः अथोसु वर्गम् लोकमेति अथैतम् पुनर्वक्त्रेऽपि सरमपश्यते श्मश्रोऽण्यग्रेवपद असोपपक्षौ अथ केशान् ततो वैषः प्राजायतप्रजयापशुभिः यस्यैवम् वपन्ति प्रप्रजया पशुभिर्मिशनैर्जायते देवासुराः संयत्ताः सन् ते संवत्सरे व्यायच्छन्द ताम् देवाश्चै देवाभिप्रायञ्जत वैश्वदेवेन चतुरोमासो वृञ्जतेन्दराजानः तान् छेढन्निचावर्तयन्तपदि च वरुणप्रकाशैश्चतुरोमासो वृञ्जतवरुणराजानः तान् छेढन्निचावर्तयन्तपदि च साकमेघैश्चतुरोमासो वृञ्जदसोमराजानः तान् शेर्ढन्निचावर्तयन्तपदि च या सम्वत्सर तामे रामे रामव्यञ्जना रतो परासुराः त एवम् विद्वा कश्चातम् भास्यैर्यजते भ्रातुल्यस्यैव भासो मृत्वा शीर्षम् निष वर्तयते परिच एषा सम्वत्सर उपजीवा वृङ्केताम् भ्रातु्यस्य क्षुधास्य भ्रातुल्यः परा भवति लोहिता यशे यद्वा इमामज्ञावायसे निवर्तयति एतदेवै नागम् रूपम् कृत्वा निवर्तयति सा दशो भूयसी भवन्तेति प्रजायते एवम् यद्वालोहितागसेन निवर्तयते एतदेव रूपम् कृत्वा निवर्तयते सरदस्वश्व भूयान् भवन्नेति प्रैवजायते निवर्तयेत त्रीणि त्रीणि वै देवाना त्रेच्छन्दागुंसि त्रे समनानि लो त्रगमे लोकाः ऋभ्यामेव तद्दीर्घकेषु लोकेषु प्रतिष्ठति यच्चादुर्मास्य याज्यात्मनो नामद्येत् दे, देवेभ्यः चतुर्षु चतुर्षु मासेषु निवर्तयेत परोक्षमेव आत्मनो मद्यज्ञनाम् पुरस्कारय देवानाम् वा एवम् विद्वान् निज वर्तयते परिच देवता एवाप्यजि नाश्च रुद्रः प्रजाम् पशो मन्यते आयुषप्राणकम् सन्तनो प्राणादपानगम् सन्तनो अपानाद्व्यानगम् सन्तनो व्यानाश्चक्षुः सन्तनो चक्षुषश्रोत्रकम् सन्तनो श्रोत्रा मनः सन्तनो मनसोवाचकम् सन्तनो वाच आत्मानकम् सन्तनु आत्मनः पृथिवेगुम् सन्तनो पृथिव्या अन्तरिक्षकम् सन्तनो अन्तरिक्षाद्विपकुम् सन्तनो दिवः सुपः सन्तनो इन्द्रोदधिः वृत्राण्यप्रजस्कृतः दे, देखाननवधेर्नव इच्छन्नश्वेच्छिदः पर्वते शुभः श्रुतम् तद्विदच्छर्यमावति अत्राहोरमन्वता नाम इन्द्रमिर्गाठिनो बृहत् इन्द्रमर्गेऽभिरर्पिनः इन्द्रम् वाणीर्णोषत इन्द्रयुद्धर्योसजाः सम्मिश्लावचोर्याः इन्द्रो वज्रैः अन्यः इन्द्रोदीर्घायचक्षसे आसूर्यगुम् रोहयद्विभिरध्यमेरयत् इन्द्रवाजेषृणो वा सहस्रप्रधनेषु च उग्र उग्राभिरोतिभिः इन्द्रम् वाजयामसे महे वृत्प्रायान्तरे सवृषामृषभोभवदे इन्द्रः सदामने कृतः ओजेष्ठः सबलेहितः द्युम्नेश्लोकेशसौम्यः गिरावद्रोणसंहृतः सबलोनपच्युतः अवक्षोग्रोस्त्रुतः देवासुराः संयत्ता आसन् स प्रजापदलीन्द्रम् ज्येष्ठम् पुत्रमपन्यशत्तः नेदे नमसुराबलीयाविंसोऽहनन्विते प्रह्रादो विरोचनगृहस्वम् पुत्रमप्यसत्ता देवेण देवाः ने देवाः प्रजापतिमो समेत्योचोः नाराजकस्य युद्धमस्ति इन्द्रमन्विच्छामेति तैयज्ञक्रतुभिरन्वैक्षन् तैयज्ञक्रतुभिर्नान्व विन्दन् तमिष्टिभिरन्वैक्षन् तमिष्टिभिरन्व विन्दन् तदुष्टीणामिष्टित्वम् येष्टयो हवी नाम तायिष्टैत्याचक्षते परोक्षेण परोक्षप्रियाय वै देवाः तस्माकेतमाः ज्ञा वे शममेकादशकपादन्ते क्षणीयन्निरगपन् तदपद्रुत्या तन्वदा तान् वत्रे सञ्ज्ञाजान्तपुपानयन् एतदन्तमेव कृत्वा तद्रवन् हे प्रायणीयमपि समारोहन् तदपद्रुत्या तन्वदा ताञ्छैवम् तवपानयन् ते तदन्तमेव कृत्वा दद्रवन् अह यच्छमारोहन् न पद्वादन्वद तारिणाौपानयन् ते तदन्तमेव कृत्वा दद्रवन् तस्मादेता एतदन्ताष्टयः सन्तिष्ठन्ते एवगम् हि देवा अकुर्वद इति देवा अकुर्वद इत्युवैमनुष्याः कुर्वते ते देवा ऊचुः यद्वा इदमुच्चैर्यज्ञे कन्नोऽसुराः पाप्मानविनिन्दन्ति उपागुंशोऽपसदाचरा वा तथा अनोऽसुराः पाप्मानानिवेत्स्यन्तीति तदुपागुंशोपसदमदन्वदा विस्रगेवसामिधेनेरनोच्य श्रवेणाघारमाघार्य विस्रः परा हेराहुते रहुत्वा श्रवेणापसरम् च भवान् चक्रुः उग्रम् वचो अपावधेन्वेषम्बचो अपावधिस्वाहेति अशनिगाविभासे हवा उग्रम्वचः येन शेरहत्यञ्चत्पेजम्वचः एतगो हवावदच्चशब्धाविहितम् पात्मानम् देवा उपजिघिरे अथो येनैतैरमानः तिस्रगेवसामिधेनेरणोच्य श्रवेणाघारमाधार्य तिस्रः परागेराहुतेन हुत्वा श्रवेणोपसरञ्जुहोति उग्रम् वचो अपावधीम् वेदम् वचो अपावधि विपासे अशनयापिपासे ह वा उग्रम् वचः येन स वेदहत्यम् च वेदम् वचः येनमेव तत् चतुर्था वेदम् पाग्मानयजमानोपहते ते भियैवाहपशुमानभन्ता अह्न एव तद्यवा अवर्तिम् दात्र्या एव तद्देवावर्तिम् बात्मानम् मृत्युमपजङ्भिरे तस्माद्भिनीयैवाहः पशुमालभेत अन्ध एव तद्विजमानोवृत्तिम् पात्मानम् चादुर्व्यानपनुदते तेनाभिनीयेवरात्रेः प्रचरेत् दात्र्या एव तद्विजमानोवर्तिम् बात्मानम् चादुर्व्यानपनुदते सगेन उपवसीरेहम् तु देवत्यः पशुना लभ्यरे अस्मिल्लोके यजमानः अस्थि च पाकुंसञ्च अस्थितैवतेन पाकुंसन् च यजमानः सग््यस्कुरुते तालावेताः पञ्चदेवताः अग्निलोपावर्गर्मित्रावर्णौ पञ्चपञ्चै यजमानः तम् पाकुम्सर्गस्ता वा स्थिमज्जा एतदेव तत्पञ्चसा विहितमात्मानम् वरुणपाशान्मुञ्चते एषदाय निर्वत्वाय एवम् सप्तविच्छन्दोभिः प्रातरह्यन् तस्मात् सप्त निरुधरा निच्छन्दापुंसि प्रादरणभाग्येनोच्यन्तेद्योपासीदन् उपास्मे गायतानरगिरे तस्मादेतया वैष्पमान उपसद्यः समुद्रमुत्तरतः प्राज्वलग्भोम् यन्तेन एषवापस समुद्रः एष उपैवसभो यन्तः यद्यन्तः तदेतृषन्त्रिपोरुषम् तस्मात्तन्त्रिपदस्तम् खनन्ते स सुवर्णरजनाभ्याम् कृषेभ्याम् परिगृहीतासीरस्या तस्मादादित्यः अजयत्सुवर्णरजनाभ्याम् कृषेभ्याम् परिधीतासीर सास्यकौशिकताः तरन्त्रपदाभिप्रास्तु पदा तरन्त्रिपदाददता तरन्तृपदाहन् यावदे त्रिपुतो मात्रा त्वम् पञ्चदशेनाभिप्रास्तु पदा त्वम् पञ्चदशेनाददता त्वम् पञ्चदशेनाहन् यावदे पञ्चदशस्य मात्रा न सप्तदशेनाभिप्रास्तु पदा नरम् सप्तदशेनाददता करुम् सप्तदशे नाहन् यावदे सप्तदर्शस्य मात्राः तस्य सप्तदर्शेण क्रियमाणस्य ते जोहरोपदत् तवेकविपुंशेनाभिप्रास्तुपद नवेकविपुंशेनाददत तवेकविपुंशेणाहरन् यावत्येकविशस्य मात्राः ते यत् त्रुवताः स्तुपदे त्रुवतैव तद्यजमानमाददते तम् त्रुवतैव हरन्ति यावदे अज्ञवत् यावद्वाग्नेऽर्धमतो सोमबुदेत्या नव्येति तावदे मात्रा अग्ने वैनन्तरे पुंसायुज्यपुंसलोकता गमयन्ति अथ यत्पञ्चदशेन स्तृपदे पञ्चदशेनैव नद्यनवानमाददते तम् पञ्चदशेनैव हरन्ति यावते पञ्चदशस्य मात्रा चन्द्रमाणैः पञ्चदशः ये यदि पञ्चदश्यामक्षीयते पञ्चदश्यामापूर्यते चन्द्रमथ एवै नव्यगुंसलोकदामयन्ति अशयत्सप्तदर्शेण स्तुवदे सप्तदर्शेणैव तद्यजमानमाददते त्वम् सप्तदर्शेनैव हरन्ति यावे सप्तदशस्य मात्राः प्रजापदर्वे सप्तदशः प्रजापते देवैनन्तदे मात्रापुंसायुज्यगुम्सलोकदाहम् गमयन्ति अजगदेकविपुंशेन स्तुवदे एकविपुंशेनैव तद्यजमानमादरते तमेकविपुंशेनैव हरन्ति यावत्येकविघुंशस्य मात्रा असौ वा आदित्य एकविपुंशः आदित्यस्यैवैनन्तदे मात्रागुंसायुज्यगुम्सलोकदाहम् गमयन्ति ते कुश्यौ न् हे अहो रात्रे अभवताम् अह एव सुवर्णा भवत् रजता रात्रिः स यदा नित्य उदेति एतामेव तत्सुवर्णाम् कुशीमनुसमेति अथगितः समेति एतामेव तद्वशताम् कुशीमनुसंविशति प्रह्रादो अवैकायाशवः तस्मात्मदधातु जगन्नाचमेत् देवे चत्वारस्तोमाः रचन्द अथ एवञ्च कलिः सः तस्माचतुष्टोमः तच्चतुष्टोमस्य चतुष्टोमत्वम् प्रदाहुः कर्वाणितानिषि यकेतस्य स्तोम इति त्रिमत्पञ्चदशः सप्तदश एकविदुंशः एताणिवावता निज्योतींसि स्य स्तोमाः सोरोद्रवीत् सप्तदशेन क्रियमाणोऽव्यलेशिषे भिरद्यतमेति तमश्विनौ दानाभिरविनज्जनान् पूषाकरम्भेन भारतीपरिपापेन वित्रावर्णोपयस्य तदा यशस्विभ्याः धानाः पोष्ठः करम्भः भारत्यैपरिपापः वित्रावर्णयोपयस्या च तस्मादेतेजागम् भविषामिन्द्रमेव यजन्तीति एताह्येन देवता इति ब्रूयात् एतेन हविर्भ्यभिषज्यज्ञस्तस्माभिः कम्भतोऽष्टाकपालेन प्रातस्वनेऽभिरज्यन् हृद्रा एतादशकपालेन माध्यन्दिने सवने विश्वे देवा द्वादशकपालेन तृतीयसवने स यदष्टाकपालान् वने कुर्यात् एकादशपालान्माछन्दिने शवने द्वादशकपालाकस्तृतीयशमने विलो मदद्यज्ञस्य क्रियेण एकादशकपालानेव प्रातःसवने कुर्यात् एकादशकपालान्माच्छन्दिने सवने एकादशकपालाकस्तृतीयशमने यज्ञस्य सलो मत्वाय तदासूनाम् प्रातःसवनम् मृदानाम् माध्यन्ति न कुम्सनम् विश्वेषाम् देवानाः तृतीयसवनम् अथ कस्मादेकेषाकम् हविषामिन्द्रमेव यजन्तीति एतार्ह्येण देवता इति ब्रूयात् एकेन हविद्भिरपिष्यस्तस्माविति तस्या वा योगपादादविभयोः अमेकैच्छन्दश्श्रयन् यदश्रयन् तच्छ्रायन्ती यस्य श्रयन्ती यत्त्वम् यदवारयन् तद्वारवन्तीयस्य वारवन्तीय त्वम् तस्यावार्ये वा तस्माकेतानि सप्तवर्तराणित्रेण्यरिच्छन्त नेण्यरभवन् सपृहते वा स्पृशत् द्वाभ्यामक्षराभ्याम्भ्यामेव करमासादेवाक्षरापृषति यस्यान्तः प्रत्यतिष्ठते द्वादशोऽर्णभास्यः द्वादशाष्टकाः द्वादशामाभास्याः एषा वा देवाक्षरा बृहति यस्यान्तप्रत्यतिष्ठति दे चेत् यानि च छन्नाकस्य प्रत्यच्छन्त यानि च नोदभमन् ताणि निर्वेर्याणि हीनान्यमन्यन्त सा ब्रवीद्बृहते मामेव भूत्वा मामुसर्गश्रयते चतुर्भिरक्षणैर्नष्टगृहतेन्नोऽनुभवत् चतुर्भ्यलक्षणे पञ्चबृहतेमत्यरिच्यत तस्यामेतानि चत्वार्यक्षरान्यपच्छिद्यादधाृहते एव भूत्वा बृहते वश्रयताम् अष्टाभिरक्षणेरुष्णुगृहतेन्नोऽनुभवत् अष्टाभिरक्षणे शृष्टुबृहतेरमत्यरिच्यत तस्यामेतान्यष्टावक्षराहण्यपच्छ्यद्यादधात् हे बृहदी एव भूत्वा बृहदेमसमाश्रयताम् द्वादशभिक्षरेः गायत्रे बृहतीम् नोऽभवत् द्वादशभिक्षरे जगते बृहतीमत्यरिच्यता कस्यामेतानि द्वादशाक्षराहण्यभिपक्ष्यद्यादधात् हे बृहती एव भूत्वा बृहदेव समाश्रयताम् सोऽ ब्रवे प्रजापतिः छन्दाकुंशरथो मे भवत युष्माभिरहमेतमध्वा नमनुसञ्चरानीति तस्य गायत्वे च जगते च पक्षा भवताम् उष्णिचक्रिष्टुप् च प्रष्ट्यौ अनुष्टुप् च पङ्कश्चधुर्यौ बृहत्येव भवद्भिरभवद् सेतच्छन्दो रथमास्थाग एतमध्वा नमो भवे छन्दो एतमध्वानपुणसञ्चरति येनैषगेतत्सञ्चरति यगेवम् विद्वान् स्वर्णेन विजते यमुचेन एवम् वेदा ओ हनुमत्यै पुरोगाशमष्टाकपालम् निर्वपते येन प्रत्यन्तश्रम्याया अवशीयन्ते तन्नैरृतमेककपालम् इयम् वा अनुपतिः इयम् निरदति नैरृतेन पूर्वेण प्रचलति आत्मानमेव निर्णयम् पूर्वान् निरवदयत् एककपालो भवति एकथैव निर्णयम् निरवदयते यदभुत्वाकारिभवत्य येयुः अर्द्रो भूत्वाध्यणोत्थाय अध्वर्यम् च यजमानम् सहन्यात् हे स्वाहुयञ्जान इत्याह आहुत्यैवैनकं शमयति नार्तिमाच्छत्यध्वर्यम् न यजमानः एकोन्मुखेन यन्ति तद्यनिर्वृत्यै भागधेयम् इमाम् दिशयन्ते एषा वै निर्वि स्वायामेपदिशि निर्मिर्निरवधयते स्वकृतये जुहोदिप्रदेवाः एतद्वै निर्वृत्यायतनम् स्वगेवायतने निर्दयन्निरवधय एतदेव निरृते भागयित्याह निर्दिशत्वे वीणाः भूते हविष्पत्तिसेत्याह वर्तते मुञ्चयमगुहसरीत्याह अगम्हद एवम् मुञ्चते अङ्गुष्ठाभ्याम् जुहोति अन्तत एव निर्विजम् निरवदयत् कृष्णम् वाधकृष्णदोषम् दक्षिणा एतद्वे निर्वृत्ते रूपम् रूपेणैव निर्वजम् निरवदयत् अप्रतिक्षमायन्ते निर्वृत्या अन्तर्हित्ये स्वाहाणये त्रिकारिकपत्ये विभोति आहुते वनपस्यन्तो कारिकपत्यमुपावर्तन्ते आनुमतेन प्रचलति इयम् वा अनुमति इयमेवास्मै राज्यमनुमन्यते धेनुम् दक्षिणा इमामेव धेनम् कुरुते आदित्यम् चलन्निर्गपति उभये स्वयम प्रजा स्वभिषिक्ष्यते देवेषु च मानुषेषु च वरो ज्ञकम् समर्थ्ये आज्ञा वैष्णवमेकादशकपालम् निर्भवते अग्निः सर्वा देवताः विष्णवियज्ञः देवताश्चैव यज्ञम् चावलन्धे आमनाभिः दक्षिणः यद्बहि हेनाः यद्वामणः हेणवैष्णवः समर्थे अग्नेशोमेयमेकादशकपालम् निर्भवते अग्नेभ्याम् वा इन्द्रो वृत्रमहन्ेमेकादशकपालन्यर्भवते वार्दग्नमेव विजित्ते हिरण्यम् दक्षिणासमृद्ध्यै इन्द्रो वृत्रकम् हत्वा देवताभिष्टेन्द्रियेण सव्यार्थ्यत स एवीन्द्राग्नमेकादशकपालमपश्यत् तन्यदपत् तेन वेषु देवताश्चेन्द्रियम् चावारुन्ध येन्द्राज्ञमेकादशकपालम् निर्पपति केवलाश्चैवलेन जगजमानो वरुन्धे ऋषभो बहि दक्षिणा यद्बहि तेनाग्नेयः यदि ऋषभः तेनेन्द्रः समन्धे आग्नेयमष्टाकपालम् निर्पपति ऐन्द्रम् नधे यदाग्नेयो भवति अग्नमे यज्ञमुखम् यज्ञमुखमेव्यम् पुरस्ता धे ऋषभीदक्षिणा यद्वयी एनाग् यदृषभः तेनेन्द्रः ते समर्थे यावतेर्वे प्रजावोषधे नाबहुदा नाभाष्णन् ताः पराभवन् आग्रे न भवविहुताद्याय यमानस्यापराभावाय वोषधे श्वाजिमयोः ताविन्द्राग्नी तावेदमेन्द्राग्नम् ता द्वादशकवानप्रणाता यमेन्द्राग्नः भवत्युजित्ते द्वादशकमानो भवति द्वादशमासाः संवत्सरः संवत्सरेणैवास्मान्नमवृन्धे वैश्वदेवश्वरुर्भवति वैश्वदेवम् वा अन्नम् अन्नमेवास्मै येश्वरै प्रथमजो वत्सो दक्षिणासमर्थ्ये सौम्यग्यस्य वागञ्चलम् निर्पपदे सोमो वा अदृष्टपक्ष्यस्य राजाः अदृष्टपक्ष्यमेवास्मै ये स्वदेति वासो दक्षिणा सौम्यगं हि देवदया वादः समृध्यै सरस्पत्ते धनुम् निर्पपदे यो ज्ञेदेवता गायति अष्टावेतानि हवेकम् हवन्ते अष्टाक्षरा गायत्री गायत्रोऽग्निः नैवेक्यमुखाध्यागेदेवतायैनैकी